गरुडपुराणम् आचारकाण्डम् अध्यायम् एट् हरिरुवाच भूमिष्ठे मण्डपे स्नात्वा मण्डले विष्णुमर्चयेद् पञ्चरङ्गिकचूर्णेन वज्रनाभन्तु मण्डलम् षोडशै कोष्ठकैस्तत्र सम्मिदम् रुद्रकारयेद् चतुर्थपञ्चकोणेषु सूत्रपादम् कोणसूत्रादुभयदकोणा ये, ये तत्र संस्थिताः तेषु चैव प्रपुर्वीदसूत्रपादम् विचक्षणः तदनन्तरकोणेषु एवमेव हि कारयेद प्रथमानाभिरुद्धिष्ठा मध्ये रेखा प्रसङ्गमे अन्तरेषु च सर्वेषु अष्टौ चैव तु नाभयः पूर्वमध्यमनाभिभ्यामथम् सूत्रम् तु भ्रामयेध अन्तरा सद्विजश्रेष्ठपादोनम् भ्रामयेद्धर अनेन नाभिसूत्रस्य कर्णिकाम् भ्रामयेच्छिव कर्णिकाया द्विभागेन केसराणि विचक्षणः सदग्रेण सदा विद्वान् दलान्येव समालिखेद सर्वेषु नाभिक्षेत्रेषु मानेनानेन सुव्रद पद्मानि तानि कुर्वीद देशिकपरमार्थविद आदिसूत्रविभागेन द्वाराणि परिकल्पयेद द्वारशोभाम् तथा तत्र तदर्धेन नदु कल्पयेद कर्णिकाम्पीधवर्णेन सितरक्तादिकेसरैः अन्तरम् नीलवर्णेन दलानि असितेन च कृष्णवर्णेन रजसा चतुरस्रम् प्रपूरयेद द्वाराणि शुक्लवर्णेन रेखा पञ्च च मण्डले सिदारक्ता तथा पीता कृष्णा चैव यथाक्रमम् कृत्वैव मण्डलम् चादौन्यासम् कृत्वार्चयेद्धरिम् हृन्मध्ये दुन्यसेद्विष्णुम् कण्ठे सङ्कर्षणम् तथा प्रद्युम्नम् शिरसिन्यस्य शिखायामनिरुद्धकम् ब्रह्माणम् सर्वगात्रेषु करयो श्रीधरम् तथा अहम् विष्णुरिदि ध्यात्वा कर्णिकायां न्यस्येद्धरिम् न्यस्येत् सङ्कर्षणम् पूर्वे प्रद्युम्नम् चैव दक्षिणे अनिरुद्धम् पश्चिमे च ब्रह्माणम् चोत्तरे न्यसेद श्रीधरम् रुद्रकोणेषु इन्द्रादी दिक्षु विन्यसेद तदोऽभ्यर्च्य च गन्धाध्यैः प्राप्नुयात् परमम् पदम् इति श्रीगारूडे महापुराणे आचारकाण्डे विष्णुपूजोपयोगिवज्रनाभमण्डलनिरूपणम् नामाष्टमोऽध्यायः ओम्